ॐ ब्रह्मणस्पतये नमः ॐ भद्रं करुणे विष्णुयाम देवा भद्रं पश्येमाक्षभिरयत्राः स्थिरैरङ्गैस्तुष्टुमां स्वस्तनूभिर्व्यशेमदिवहितं यदायुः स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पद्रिदधातु ॐ शान्तिश्शान्तिश्श्शान्तिः ॐ ब्रह्मणस्पतये नमः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं दत्वमसि त्वमेव केवरं कर्तासि त्वमेव केवलं धरतासि त्वमेव केवलं हरतासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं कृतं वच्मि सत्यं वच्मि अवक्त्वं माम् अववक्तारम् अवस्रोतारम् अवधातारम् अवधातारम् अवानूचा नमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमान्दमयस्त्वं ब्रह्ममयः त्वं भक्तिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं नलो निलो नवः त्वं चत्वारि वाक्पदानि त्वमवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यं त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भस्वरो गणादिम् पूर्वमुच्चादिवर्णादिस्तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितं पारेण रुद्धम् एतत्रोऽनुस्वरूपम् अकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् इन्दुरुत्तररूपम् नादः सन्धानं सगृहिता सन्धिः सैषा निचृद्गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नोदन्ती प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्कुशधारणं तदञ्च वरदं हस्तैर्विभ्राणं मूषकध्वजं रक्तन्दम्बोदनं शूर्प कर्णकं रक्तवाहसं रक्तगन्धां रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनं देवं जगत्कारणमकृतम् आविर्भूतञ्च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् एवं ध्यायति यो नित्यं सयोगी योगी योगिनां वरहा नमो रातपतये नमो गणपतये नमः प्रथमपतये नमस्तेऽस्तु नम्बूतनाय एक एकनन्दाय विघ्ननाशिने शिवस्रुताय वरदमूर्तये नमः एतदथर्वशीर्षं योधीते स कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापात् प्रमुच्यते सायमधिया नो दिवसकृतं पापं नाशयति प्रातरधीया नो रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानोऽपापो भवति सर्वत्राधियानोपविघ्नो भवति धर्ममर्थं कामं मोक्षं च विन्दति इदमथर्वशीर्षमशिष्यायन देयं यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनात् यञ्जं काममधीते तं तमनेन अनेन गणपतिव विषिञ्जति स वाग्मी भवति चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणं विद्यात् न बिभेति कदाच नेति यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाचैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः सामिद्भिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जत्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेदा इत्युपनिषत् ॐ भद्रं कर्णे विशृणयाम देवा भद्रं पश्येमाक्षभिः स्थिरैरङ्गै सुष्टुमां स्वस्तनूशेम देवहीतं यदायुः स्वस्ति नो वृद्धश्रमाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पति दधातु ॐ शान्तिश्शान्तिशान्तिः ॐ ब्रह्म